अथ एकोनविंशत्यधिकशततमोऽध्यायः वैशम्पायन उवाच तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् सिद्धचारणसङ्घानां बभूव प्रियदर्शनः शुश्रूषुरनहं संयतात्मा जितेन्द्रियः स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत केषाञ्चिदभवत् भ्राता केषाञ्चिदभवत् सखा ऋषयस्त्वपरे चैनम् पुत्रवत्पर्यपालयन् स तु कालेन महता प्राप्य निष्कल्मषं तपः ब्रह्मर्षिसदृशः पाण्डुः बभूव अमावास्यां तु सहिता ऋषयः ब्रह्माणं द्रष्टुकामास्ते म्प्रतस्थुर्महर्षयः सम्प्रया तान् ऋषीन् दृष्ट्वा पाण्डुर्वचनमब्रवीत् भवन्तः क्व गमिष्यन्ति ब्रूतमेव वराः ऋषय ऊचुः समवायो महानद्य ब्रह्मलोके महात्मनां देवानां च ऋषीणां च पितॄणां च महात्मनां वयं तत्र गमिष्यामो द्रष्टुकामः स्वयम्भुवं वैशम्पायन उवाच पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः स्वर्गपारं तितीर्षुः स शतशृङ्गादुदङ्मुखः प्रतस्थे च तापसाः उपर्युपरि शैलराजमुदङ्मुखाः दृष्टवन्तो गिरौ रं ये दुर्गान् देशान् बहून्वयं विमानशतसंबाधां गीतस्वरनिनादिताम्